दशाधिकशतमोऽध्यायः वैशम्पायनोवाच शूरो नाम यदुश्रेष्ठो वसुदेव पिताभवत् तस्य कन्यापृथा नाम रूपेणाप्रतिमा भुवि पितृष्वस्त्रीयाय सताम् अनपत्याय भारत अग्र्यमग्रे प्रतिज्ञाय स्वस्यापत्यम् सत्यवा अग्रजामथताम् कन्याम् शूरो शूरोनुग्रहकांक्षिणे प्रदौ कुंकीय सखा सख्ये महात्मने पितुर्गेहे, दुर्गे देवतातिथिपूजने उग्रं पर्यच्द्राह्मण संशित व्रतम निगूढ़ धर्में य दुर्वास संविदु तमुग्रम संशितात्माषयत तस्यै प्रददौ प्रदौ मन्त्रमापद्धर्मान्ववेक्षया अभिचाराभिसंयुक्तमब्रवीच्यैव ताम् मुनिः यम् यम् देवम् त्वमेतेन मन्त्रेणावाहयिष्यसि तस्य तस्य प्रसादेन पुत्रस्तव भविष्यति तथोक्ता सा तु कुन्ती कौतूहलान्विता कन्या सती देवमर्कमाजुहावयशस्विनी साददर्शतमायान्तम् भास्करम् लोकभावनम् विस्मिता चानवद्याङ्गि दृष्ट्वा तन्महदद्भुतम् ताम् समासाद्य देवस्तु विवस्वान् इदमब्रवीत् अयमस्म्यसितापाङ्गि ऋषिमन्त्रेण चोदितम् विद्धिमाम् पुत्रलाभाय देवमर्कम् शुचिस्मिते कुन्त्युवाच कश्चिन्मे ब्राह्मणः प्रादाद्वरम् विद्याम् च शत्रुहन् तद्विजिज्ञासयाह्वानम् कृतवत्यस्मिते विभो एतस्मिन्नपराधे त्वाम् शिरसाहम् प्रसादये योषितो हि सदा रक्ष्या नित्यशः सूर्यौ वेदाहम् सर्वमेवैतद् यद्दुर्वासावरम् ददौ त्यज्यभयमेवेह क्रियताम् सङ्गमौ मम अमोघम् दर्शनम् मह्यमाहूतश्चास्मिते शुभे वृथाह्वानेऽपि ते भीरुदोषस्यान्नात्र संशयः वैशम्पायनौ वाच एवमुक्ता बहुविधम् सान्त्वपूर्वम् विवस्वता सा तु कन्याहमिति भारत बन्धुपक्षभयाद्भीता लज्जया च यशस्विनी तामर्कः पुनरेवेदमब्रवीत् भरतर्षभ आदित्ये कुण्डले विभ्रत्कवचम् चैव मामकम् भविष्यति शुचिस्मिते नन किञ्चन देयम् तु भविष्यति चोद्यमानो मया चापि दास्यत्येवहि विप्रेभ्यो मानी चैव भविष्यति मत्प्रसादान्नते राग्नि भविता दोष इत्युत एवमुक्त्वास स भगवान् कुन्तिरा तदा प्रकाशकर्ता तपनः सम्बभूव तत्र वीरः समभवत् वरः आमुक्तकवच श्रीमान् देवगर्भश्रियान्वितः सहजम् कवचम् बिभ्रत्कुण्डलो द्योतिताननः अजायतसुतः कर्णः सर्वलोकेषु विश्रुतः प्रादाच्च तस्यैकन्यात्वम् पुनः स परमद्युतिः दत्त्वा च तपताम् श्रेष्ठो दिवमाचक्रमे ततः दृष्ट्वा कुमारम् जातम् सा वार्ष्णेयी दीनमानसा एकाग्रम् चिन्तयामास किम् कृत्वा सुकृतम् भवेत् गूहमानापचारम् सा बन्धुपक्षभयात्तदा उत्ससर्जकुमारम् तम् जले कुन्ती महाबलम् तमुत्सृष्टम् जले गर्भम् वसुना सह जातोऽयम् वसुषेणो भवत्विति स वर्धमानो बलवान् सर्वास्त्रेषूद्यतो भवत् आपृष्ठतापादादित्यम् उपातिष्ठत तस्मिन्काले तु जपतस्तस्य वीरस्य धीमतः नादेयम् ब्राह्मणेष्वासीत् किञ्चिद्वसुमहीतले ततः काले तु कस्मिंश्चित् स्वप्नान्ते कर्णमब्रवीत् आदित्यो ब्राह्मणो भूत्वा शृणुवि रवचो मम प्रभातायाम् रजन्याम् त्वमागमिष्यति वासवः न तस्य विप्ररूपी भविष्यति निश्चयोऽस्यापहर्तुम् ते कवचम् कुण्डले तथा अतस्त्वाम् बोधयाम् येष स्मर्तासि वचनम् मम कर्णौ वाचक्रो माम् विप्ररूपेण यदि वै याचते द्विज कथम् चास्मै न दास्यामि यथा चास्म्यवबोधितः विप्राः पूज्यास्तु देवानाम् सततम् प्रियमिच्छताम् तम् देवदेवम् जानन् वै न शक्नोम्यवमन्त्रणे सूर्यौवाच यद्येवम् शृणु वीर वरन्ते सोऽपि दास्यति शक्तिम् त्वमपि याचेथाः सर्वशस्त्रविबाधिनीम् वैशम्पायन उवाच एवमुक्त्वा द्विजः स्वप्ने तत्रैवान्तरधीयत कर्णः प्रबुद्धस्तम् स्वप्नम् चिन्तया नोभवत्तदा तमिन्द्रो भिक्षार्थी समुपागमत् कुण्डले प्रार्थयामास कवचम् च महाद्युतिः स्वशरीरात्समुत्कृत्य कवचम् स्वम् निसर्गजम् कण्णस्तु कुण्डले छित्त्वा प्रायच्छत्सकृताञ्जलिः प्रतिगृह्यतु देवेशस्तुष्टस्ते नास्य कर्मणा अहो सा मनसा वासवो हसन् देवदानवयक्षाणाम् गन्धर्वो रगरक्षसाम् नतम् तम् पश्यामि को ह्येतत् कर्मकर्ता भविष्यति प्रीतोस्मि कर्मणा वरं वरम् वृणुयमिच्छसि कर्णौ वाच इच्छामि भगवद्दत्ताम् शक्तिम् शत्रुनिबर्हणीम् वैशम्पायन उवाच ददौ शक्तिम् सुरपतिर्वाक्यम् चेदमुवाच देवासुरमनुष्याणाम् गन्धर्वो रगरक्षसाम् यमेकम् जेतुमिच्छेथाः सो नया न भविष्यति प्राङ्नाम तस्य कथितम् वसुषेण इति क्षितौ कर्णो वैकर्तनश्चैव कर्मणा तेन सोऽभवत् इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि कर्णसम्भवे दशाधिकशतमोऽध्यायः